भागवत महापुराण पंचम स्कंध अथ पंचम ऋषभ जी का अपने पुत्रों को उपदेश देना और स्वयं अवधूत वृत्ति ग्रहण करना ऋषभुवाच ना देहो देह भाजा लोके कष्ट कामान भुज तपो दिव्यं पुत्रकायेन सत्त्वं शुद्ध्येऽद्यस्माद्ब्रह्मशौक्यं त्वनन्तं महस्येवां द्वारमाहुर्विमुक्ते तमोद्वारं योषितां सङ्गीसङ्गं महान्तस्ते समचित्ता प्रशान्ताभिमन्यव सुहृदसाधवोये देवा मयि से कृतसौहृदार्था जनेषु देहभरवार्चिकेषु गृहेषु जायात्मजरातिमत्सो न प्रीतियुक्ता यावदर्थास्य लोके नूनं त्रमद्द कुरुते विकर्म यदिन्द्रियप्रीतय आप्नोति न साधु मन्ये यत् आत्मनोऽयम् अशन्नपि क्लेशदासदेह पराभवस्तावदबोधजातो यावन्नजिज्ञासत् आत्मतत्त्वम् यावद्क्रियास्तावदिदं मनो वै कर्मात्मकं येन शरीरबन्ध एवं मनः कर्मवसम्प्रयुक्ते अविद्ययात्मन्युपधीयमाने तीर्तिर्न यावन्नै वासुदेवेन मुच्यते देहयोगेन तावन् यदा न पश्यन्त्येथा गुणगुणेहां स्वार्थे प्रमदशहसा विपश्येन् गतस्मृतिर्विन्दति तत्र तापान्नाशाद्य मैथुन्यमगानमज्ञ पुंसा श्रियामिथुनीभावमेतं तयोर्मिथो हृदयग्रन्थिमाहु अतो गृहच्छेदसुताप्तवित्तै जलस्य मोहोऽयमहं नमेति यदा मनोहृदे ग्रन्थिरस्य कर्मानुबद्धो तृण आश्लेत तदा जनाशं परिवर्तते स्मान्मुग्धपरं यात्यतिहायहेतुं हंसे गुरोर्मयि भक्त्यानुवृत्त्या वितृष्णया द्वन्द्वतीतिक्षया च सर्वत्र जन्तोर्व्यसनावगत्या जिज्ञासया तपसेहानुवृत्त्या मत्कर्मभिर्मत्कथया च नित्यं मद्देवसङ्गान् गुणकीर्तनाम्ने निर्वैव साम्योपशमेन पुत्रादिहाशया देहगेहात्मबुद्धेन् अध्यात्मयोगेन विविक्तसेवा प्राणेन्द्रियात्माभिजयेन सन्ध्यं सश्रद्धया ब्रह्मचर्येण सज्जन् असम्प्रमादेन नियमेन वाचां सर्वत्र मद्भावविचक्षणेन ज्ञानेन विज्ञानविराजितेन योगेन धृत्योद्यमः सत्त्वयुक्तो लिङ्गम् दपोषेत्कुशलोहमाख्यम् कर्माशयम् हृदयग्रन्थिबन्धम् अविद्ययां साधितमप्रमेन्प्रमत्तः अनेन योगेन यथोपदेशम् सम्यग्व्यपोषोपरमेतयोगात् पुत्राञ्च शिष्यास्य निपो गुरुर्वा मल्लोककामो का मदनुग्रहार्थ इत्थं विपन्योरनुशिष्यात् दद्यान न योजयेत्कर्मसु कर्म मूढान् कं योजयन्मनुजुन् मनुजोऽर्थं लभेत निपाति यन्नष्टदिशं हि गरते लोक स्वयं श्रेयसि नष्टदेष्टेयोऽर्थान् समीहेत निकामकाम अन्यो न सुखले सहेतो अनन्तदुःखं च न वेदमूढ कष्टं त्रयं तदभिज्ञो विपश्चे अविद्यायामन्तरे वर्तमानं दृष्ट्वा पुनस्तं शगुणसुखबुद्धिं प्रयोजयेद्वत्पथगं यथान्धम् गुरुर्ण स्यात् स्वजनो न स्यात् पीता न स्याज्जननीं दैवं न तस्यान्न पतिश्च स्यां न मोचयेद्य सुपेतमृत्युम् इदं शरीरं मम दुर्विभाजं सत्त्वं यत्र धर्म पृष्ठे कृतो मे यदधर्म आरान् यतो हि प्राहुरार्याः तस्माद्भवन्तो हृदयेन जाता सर्वे महीयां सममुं अक्लिष्टबुद्ध्या भरतं भजध्वं तश्रोषणं तद्भरणं प्रजानाम् भूते सु विरुध्यन्भ्य तदु उत्त उदूत्तमा ये धरी ततो मनुष्या प्रमुतास्ततोऽपि गन्धर्वसिद्धा विविधानुरङ्गामि ये देवासुरेभ्यो मगवत्प्रधाना दक्षादयो ब्रह्मसुता भव परसोत विरिञ्च विर्यासमत्परोऽहं द्विजदेवदेव